अथ नवतितमोऽध्यायः अष्टक उवाच यदा वसो नन्दने कामरूपी संवत्सराणामयुतम् शतानाम् किम् कारणम् कार्तयुगप्रधान हित्वा च त्वम् वसुधामन्वपद्यः ययातिर्वाच ज्ञातिस्तुहृत्स्वजनो वा यथेह त्यज्यते मानवैः तथा तत्र क्षीणपुण्यम् मनुष्यम् त्यजन्ति सद्यः अष्टक उवाच दस्मिन तस्मिन्कथम् पुन्या भवन्ति सम्मुह्यते मेत्रमनोतिमात्रम् किम्बा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्वम् ययातिरुवाच मे ययतिरुवाच इमम् भौमम् लालप्यमाना नरदेव सर्वे ते कङ्कगोमायुबलाशनार्थे क्षीणाभिवृद्धिम् बहुधा व्रजन्ति तस्मादेतद्वर्जनीयम् नरेन्द्र दुष्टम् लोके गर्हणीयम् च आख्यातम् पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि अष्टकौवाच यदा तुतान्वितुदं तथा गृद्धा श्रितिकण्ठाः पतङ्गाः कथम् भवन्ति कथमा न भौममन्यम् नरकम् शृणोमि ययातिरुवाच ऊर्ध्वम् देहात् कर्मणा जृम्भमाणाद् व्यक्तम् पृथिव्यामनुसञ्चरन्ति इमम् भौमम् नरकम् ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ष्टि सहस्राणि पतंति व्योम तथा परिवत्सराणि, भीमा परीवत्सरादी पतौमा राक्षसास्तीक्षणद्रा चक उच यदे न सस्ते पततस्तुदी भीमसस्तीक्षणद्रा कथम कथमा कथम भूता गर्भूतातिवाच अस्त्रम रेत पुष्पलापृक्त अन्वेति तद पुषेण सृष्ट स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र वनस्पतीनोषधीश्चाविशन्ति अपोवायुम् पृथिवीम् चान्तरिक्षम् चतुष्पदम् चापि सर्वम् एवम्भूता गर्भभूता भवन्ति अष्टकौवाच अन्यद्वपुर्विदधातीह गर्भम् उदाहोस्वित् कायेन याति आपद्यमानो नरयो निमेताम् आचक्ष्मे संशयात्र शरीरभेदाभिसमुच्छ्रयम् च चक्षुश्रोत्रे लभते केन सञ्ज्ञाम् एतत्तत्त्वम् सर्वमाचक्ष्वपृष्टः क्षेत्रज्ञम् त्वाम् तातमन्याम सर्वे ययातिर्वाच वायुः समुत्कर्षति गर्भयोनिम् ऋतौरेतः पुष्परसानुपृक्तम् स क्रमेण संवर्धयतीह गर्भम् स जायमानो मनुष्यः स श्रोत्राभ्याम् वेदयतीह शब्दम् सवैरूपम् पश्यति चक्षुषा च घ्राणेन गन्धम् जिह्वयाथो रसम् च त्वचास्पर्शम् मनसा वेदभावम् इत्यष्टकेहोपहितम् हि विद्धि महात्मनाम् प्राणभृताम् शरीरे अष्टक उवाच यः पुरुषो दह्यते वा निखन्यते अभावभूतस्य विनाशमेत्य केनात्मना चेतयते परस्तात् ययातिरुवाच हित्वासोऽसुप्तवन्निश्च नित्वा पुरोधाय सुकृतं दुष्कृतं वानाग्रानुसारी हित्वा देहम् भजते राजसिंह पुण्यां योनिम् पुण्यकृतो व्रजन्ति पापां योनिम् पापकृतो व्रजन्ति कीटाः पतङ्गाश्च भवन्ति पापा न विवक्षास्ति महानुभावा चतुष्पदा द्विपदाषट्पदाश्च तथाभूता गर्भूता भवन्ति आख्यातमेतन्निखिलेन सर्वम् भूयस्तु किम् पृच्छसि राजसिंह अष्टकौवाच किं स्वित्कृत्वा लभते तातलोकान् मर्त्यश्रेष्ठांस्तपसा विद्यया वा तन्मेपृष्टः शंस सर्वम् यथावत् शुभाल्लोकान्येन गच्छेत् क्रमेण यातिरुवाच तपश्च च शमोदमश्च ह्रीराजवम् सर्वभूतानुकम्पा स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः अधीयानः पण्डितम् मन्यमानो यो विद्यया हन्ति यशः परेषाम् तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्मफलम् ददाति चत्वारि कर्माण्यभयङ्कराणि भयम् प्रयच्छन्त्यथा कृतानि मानाग्निहोत्रमुत मानयज्ञः न मानमान्यो मुदमाददीत नसंतापं सन्तापम् प्राप्नुयुच्चावमानात् सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते इति दद्यामिति यज इत्यधीय इति व्रतम् इत्येतानि भयान्याहुः तानि वर्ज्यानि सर्वशः ये चाश्रयं वेदयन्ते पुराणम् मनीषिणो मानसमार्गरुद्धं तद्वश्रेयस्तेन संयोगमेत्य परां शान्तिम् प्राप्नुयुः प्रेत्यचेयः इति महाभार आदिपर्वि संभवपर्वि उत्तर ये नवतितमोध्याय